नारायणीयं दशकं सेवेण्टि मीटर मीटर् वसन्तमालिका निशमय्यतवाधयानवार्ता भृशमार्ताः पशुपालबालिकास्ताः किमिदं किमिदं कथन् विधीमा समवेदाः करुणानिधिरेष नन्दसूनुः कथमस्मान् विसृजे धनन्यनाथाः वदनः किमुदैव मेवमासीदिति तास्त्वद्गद मानसा विलेपुः चरमप्रहरे प्रदिष्टमानः सह पित्रा निजमित्रमण्डलैश्च परितापभरं निदम्बिनीनां शमयिष्यन् व्यमुचः सखायमेकम् अचिरादुभयामि सन्निधिं वो भविदा साधुमयैव सङ्गमश्रीः अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः सविषादभरम् स याज्ञमुच्चैरतिदूरं वनिताभिरीक्ष्यमाण मृदु तद्दिशि पादयन्नपाङ्गान् सबलो क्रूरथेण mm. अनसा बहुलेन वल्लभानां मनसा चानुगतो वल्लभानां वनमार्तमृगम् विषण्णवृक्षं समदेयमुना तडीमयासीः नियमाय निमज्य वारिणि त्वामभिवीक्ष्याधरथेऽपि भी गान्धिनेयः विवशोजनि किन्विदं विभोस्ते ननुचित्रं त्ववलोकनं समन्ताद पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमम्भुजङ्कभोगे अरिकम्बुगदाम्बुजैः पुरन्दं सुरसिद्धौकपरीतमालुलोके स तदा परमात्मसौख्यसिन्धौ विनिमग्नप्रणुवन्प्रकारभेदैः अविलोक्य हर्ष सिंधोरवृत्त पुलृत मा महांजल युलको स विधि चोदि तेनार्ष तेना निरुण रधवासी पवनेश्य पवनेश पा